तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा निपाप्मानम् महात्मानम् दिवौकसयिवेश्वरम् सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणां विवेशसहितस्तेन वसिष्ठेन महर्षिणा ददृशुस्तम् महीपालमयोध्यावासिनो जनाः पुरोहितेन सहितं दिवाकरमिवोदितं सचतां पूरयामासलक्ष्म्या लक्ष्मीवतां वरः अयोध्यां व्योमशीतांशुः शरत्काल इवोदितः संसिक्तमृष्टपन्थानम् पताकाध्वजशोभितं ध्वजशोभितम् मनःप्रह्लादयामास तस्य तत् पुरमुत्तमम् तुष्टपुष्टजना कीर्णासा पुरीकुरु नन्दना अशोभत तदा तेन